तान् सर्वांस्तत्र दृष्ट्वाथ मुदायुक्तो धनञ्जयः वशे चक्रेऽथरत्नानि लेभे च सुभूनि च ततो निषिधमासाद्य गिरिस्थानजयत्प्रभुः अथ राजन्नतिक्रम्यनिषधं शैलमायतम् विवेशमध्यमम् वर्ष्यम् पार्थो दिव्यमिलावृतम् तत्र देवोपमान् दिव्यान् पुरुषान् देवदर्शनान् अदृष्टपूर्वान् सुभगान् धनञ्जयः सदनानि च शुभ्राणि नारीश्चाप्सरसन्निभाः दृष्ट्वा तानजयद्रम्यान् सतैश्च ददृशे तदा जित्वा चान्महाभागान् करे च विनिवेश्य सह रत्नान्यादाय दिव्यानि भूषणैर्वसनैः सह उदीचिमथ राजेन्द्र ययोपार्थो मुदान्वितः सददर्श महामेरुं शिखलानां प्रभुं महत्तङ्काञ्चनमयन् दिव्यञ्चतुर्वर्णं दुरासदम् आयतं शतसाहस्नै यो तु सुस्थितं ज्वलन्तमचलं मेरुं तेजोराचिमनुत्तमम् आक्षिपन्तं प्रभां भानुः स्वशृङ्गैः काञ्चनोज्ज्वलैः कांचनाभरण दिव्यं देंवगंधर्वसेतुष्पलोपेत सिद्धचारण सेवित अमेयमनाधृश्यम धर्मबहलर्जन